श्रीमद्भागवत् महापुराणं दशंस्कन्ध अथ द्वादशोऽध्यायः अभासुर्का उद्धार श्रीशु कुवाच क्वचिन्वनाशाय तेनैव साकं पृथुका सहस्रस स्निग्धा सुत्र विशालवेणवः स्वान् स्वान् सहस्रोपरिसङ्ख्ययान्वितान् वस्सान् पुरस्कृत्य विनिर्ययोर्मुलान् कृष्णवस्सैरसङ्ख्यातैर्युथीकृत्य सुभस्तकान् सुमनं फलप्रवालसपुमनम् पिच्छदातु काचकुञ्जामणिश्वर्णभूषिता अविभूषयन् मुश्नन्तोऽन्योऽन्यशिज्ञादि ज्ञाता नाराच्चिक्षिपुः तत्रत्याश्च पुनर्दूराधसन्तश्च पुनर्दधो यदि दूरं गतः कृष्णो वनसो भे क्षणायुतम् अहं पर्वमहं पर्वमिति संस्पृशि रेमिरे केचिद्वेणूनवादयन्तो ध्मान्त शृङ्गालिकेचन केचिद् प्रगायन्त कूजन्त कोकिलै परे विच्छयाभिं प्रधावन्तो गच्छन्त साधुहंसकै वकैरूपाशन्तश्च नित्यन्तश्च कलापिभिः निकर्षन्त केशबालान्नरोहन्तश्चितैर्द्रुमान् विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु शाकं भीकैर्विलङ्घन्त सरित्प्रस्रवश सम्प्लुताः व्यसन्त प्रतीक्षाया समन्तश्च प्रतिस्वनान् इत्थं शतां ब्रह्मसुखान् भुज्या दास्यं गतानां परदैवतेन मायासितानां नरदारकेण साकं विजह्रूकृतपुण्यपुञ्जाः यत्पादपां सुरबहुजन्म कृत्रतोधितात्मभिर्योगिभिरप्लं विरप्यलभ्य सा एव यद्दिग्विषय स्वयं सित किं वर्णते दीष्टमतो व्रजौकशाम् अथाघनामाभ्युपतन्महासुरन् तेषां सुखक्रीडनवीक्षणाक्षमः नित्यं जदन्तर्निजीविते सुभि पीतामृतैरव्यमरैः प्रतीक्षते दृष्ट्वार्भकान् कृष्णसुखानघासुरः कंसानुशिष्टः शबकीबकानुजः अयं तु ते अयं तु मे सोदरनाशकृतयो द्वयोर्ममैनं शवनं हनिष्ये एते यदा मसृहृदो तिलापकृतास्तदा नष्टसमा व्रजौ गच्छणे गति वर्ष्मसुखानुचिन्ता प्रजा वशन् प्रजा हि एते एते दिवस्या जग्रं बृहद्वपुषा योजनायाम् अमाहादृम्पीवरं धृत्वाद्भुतं तदा पथि व्यसेतग्रशनाशया धराधरोष्ठो जलदोतरोष्ठो धर्यान्नन्तो गिरिशृङ्गद्रष्टः ध्वान्तान्तरास्यों वितताध्वजिह्वपरषानिलश्वासदुं वेक्षणोष्ण दृष्ट्वा तं दन्तादृशं सर्वे मत्वा वृन्दावनश्रियम् ्याताज गरतुण्डेन क्षुत्प्रेक्षन्ते स्म लीलया अहो मित्राणि गदतसत्त्वकूटं पुरस्थितम् अस्मन् सङ्ग्रशनं व्यात व्यालतुण्डायते न वा सत्यकर्मकरां करा रक्तमुत्तराहनुवद्घनम् अधरा हनुमन्द्रोध तत्प्रतीक्षायारुणं प्रतिस्पर्धे च शिकृभ्यां सव्यासव्येन गोचरे तुङ्गशृङ्गालयोप्येता तन् द्रष्टाभेशं पश्यत आश्रितायाम् मार्गोऽयं रशनां प्रतिजर्गति प्रतिगर्जति तेषामन्तर्गतं ध्वान्तम् एतदप्यन्तरानम् दावोष्णं खरभातोऽयं श्वासवद्भाति पश्यत तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरां च गन्धवद् तस्मान् किमत्र ग्रसिता निवेष्टा नयं तदां तथा चेत् भगवद्विनङ्क्षते क्षणादनेनेतिव कार्यो वृक्षोधसन्तं करताडनैर्यजुः